श्रीमद्भागवत् महापुराणं दसंस्कन्धद्वितीयोऽध्याय स्वयं समुत्तीर्य सुदुस्तरं द्युमन्धवाणवं भीममदभ्रसोषिदा भवत्पदाम्भोरुहनावमन्त्रते निधाय जाता सदनुग्रहो भवान् येनैरविन्दाक्ष विमुक्तमानिन त्वय्य स्तम्भावाद विशुद्धबुद्धय आर्यकृच्छेण परं पदं तत पतन्तधो नातयुस्मृदघ्रय तथान्नते माधव तावकाक्वचे भ्रस्यन्ति मार्गा त्वयि बद्धसौहृदा त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानेकमं मूर्धसुप्रभो सत्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेय उपायनं वपुं वेदक्रियायोगतपसमाधिभीतबाहणं येन जन समीहते सत्त्वं न चेद्धातरिदं निजं भवेद् विज्ञानमज्ञानभिधापमार्जनं गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः न नामरूपे गुणजन्मकर्मभिः निरूपितव्येतव तस्य साक्षिण मनोवचोभ्याम् अनुमेयवर्त्मनो देवक्रियायां प्रतियन् तथापि तिन् गृणन् संस्मर्यश्च चिन्तयन्नामानि रूपाणि च मङ्गलानि क्रियासु यत् यस्त्वच्चरणारविन्दयो आविष्टचेतानभवाय कल्पते दिष्टाहरे श्या भवत पदो भुवो भारोपनीतस्तवजन्मनेषुतुः दिष्टाङ्कितां तत्पदकैः सुशोभनैः दक्षामगां द्यां च तवानुकम्पितां न ते भवस्ये स भवस्य कारणं विना विनोदं बत तर्कयामहे भवो निरोधस्थितिरप्यविद्यया कृता यतस्त्वय्य प्रम्भया श्रेयात्मने मस्यास्वकच्छप नृसिंहं दराहंस राजन्न विप्रभुबुधे सुकृतावतारः त्वं पासि नस्ते भुवनं च यथाधुनेश भारं भुवो हर यदोत्तममन्दनं ते दृष्टाम्ब ते कुक्षुगतपर पुमाम् अंशेन साक्षाद्भगवान् भवाय मा भुद्भयं भोजपतेर्मुमूषो गोप्तायदूनां धविता तवात्मज शीशोकुवाच इत्यभ्यष्टोयपुरुषं यद् यद्रूपमणितं यथा ब्रह्मे सानौ पुरोधाय देवापते ययुर्दिवं ते श्रीमद्भागवते महापुराणे तारमुंसां सहितायां दशं स्कन्धे गर्भगतविष्णोर्ब्रह्मादिकृतिस्तुतिर्नाम द्वितीयोऽध्यायः